अथ एकोनत्रिंशम् दशकम् उद्गच्छतस्तवकरादमृतम् हरत्सु दैत्येषु तान शरणाननुनीय देवन् सद्यस्तिरोदधिथदेव भवत्प्रभावादुद्यत्स यूथ्यकलः दितिजाबभूवुः श्यामाम् ऋचापि वयसापि पीयूषकुम्भकलहं कुम्भकलहम् परिमुच्य सर्वे तृष्णाकुलाः प्रतिययुस्त्वदुरोज कुम्भे का त्वम् मृगाक्षि विभजस्व सुधामि मामित्यारूढ रागविवशानभियाचतो मून विश्वस्यते कुलटास्मि दैत्या इत्यालपन्नपि सुविश्वसिता मोदात्सुधा कलशमेषु ददत्सु सात्वम् दुश्चेष्टितम् मम सहध्वमिति ब्रुवाणा पङ्क्तिप्रभेदविनिवेशित देवदैत्या लीलाविलासगतिभिः समदाः सुधाम् ताम् अस्मास्वियम् प्रणयिनीत्यसुरेषु तेषु सुरेषु त्वम् भक्तलोकवशगो निजरूपमेत्य स्वर्भानुमर्दपरिपीतसुधम् व्यलावीः त्वत्तः सुधाहरणयोग्यफलम् परेषु दत्त्वागते बलिदैत्यमायाव्यामोहिते सुरगणे त्वमिहापिरासीः त्वम् कालनेमिमथ मालिमुखान् जगन्थ शक्रो जघान बलिजम् भवलान् सपाकान् शुष्कार्द्रदुष्करवधेनमुचौ च लूने फेनेन नारदगिरा न्यरुणोरणम् तम् योषावपुर्दनुजमोहनमाहितम् ते श्रुत्वा विलोकनकुतूहलवान् महेशः भूतैः समम् गिरिजया ते स्तुत्वा ब्रवीदभिमतम् त्वमथोऽतिरोधाः आरामसीमनि च कन्दुकघातलीलालोलायमाननयनाम् कमनीम् मनुज्ञाम् त्वामेष वीक्ष्य विगळद्वसनम् मनो समालिलिङ्ग भूयोऽपि विद्रुतवतीमुपधाव्य देवो वीर्यप्रमोक्षविकसत्परमार्थबोधः त्वन्मानितस्तव महत्त्वमुवाच देव्यै तत्तादृशस्त्वमववातनिकेतनाथ इत्यूनत्रिंशम् दशकम्